हरि ओम् सविद्धौ अन्यङ्कृतरम् अतीनाङ्कृतमग्ने मधुमत्मिन्वमानः वाजिवहन् वाजिनम् जातवेदो देवानम् वक्षिप्रियमासदस्थम् हृतेनञ्जन् सम्पथो देवजानन् प्रजानन् वाजप्येतु देवान् ननुत्वा सत्ते प्रदिशः सचन्ताग् स्वधामस्मै यजमानाय धेहि यड्ढश्चासि वन्यश्च वाजिन्नाशिश्चासि मेध्यश्च सप्ते अविनष्ट्वा देवैर्वसुभिः सजोघाः प्रीतम् वह्निम् वा तु जातवेदाः स्कीर्णम्बरिः सुष्ठरी माचुखाणोरुपृथु प्रथमानम् पृथिव्याम् देवे विर्लुक्तमदितिः सजोघाः स्योऽनम् एता उवाः सुभगाविश्वरूपा विपक्षोभिः श्रयमाणा उदातैः ऋह्वाः सतीः कवखः शुम्भवानद्वारो देवीः सुप्रायणा भवन्तु हन्तरामित्रामरुणा चरन्ती मुखम् जज्ञानामभिसंविधाने मुखासा वाग्सु हिरण्ये सुशिल्पे ऋतस्य जोदाविह साधयामि प्रथमा वाग्निसरथिना सुवर्णा देवौ भुवनानि विश्वान् अपि प्रयञ्चोदना वां विमाना हूतारा ज्योतिः प्रदिशाधिशन्ताम् आदित्यैर्नो वा सरस्वती सह रुद्रैर्न आवीत हिडोपहूत वसुवे सजोगाजज्ञन्नन्नो देवीरमृते कुधत्तौ त्वष्टाव्यम् देव कामम् जान त्वष्टु निर्वाजायत आशुरश्वा त्वष्टेदम् विश्वम्भुवनम् जा जान बहुः गतारमिह हो जक्षि होता अश्वोकृतेन्यासमक्त उपदेवामृदुषः पाथ एतु वनस्पतिर्देवलोकम् प्रजानन्दनिनाहव्यास्वदिता निवक्षत प्रजापतिस्तपसा वाधानः सद्यो जातोदधिके जज्ञमग्ने स्वाहावृतेन हविघापुरोगाजाहि साध्याः विरदन्तु देवाः यदक्रन्दः प्रथमम् जायमान उद्यन् समुद्रादुत वा पुरीखात श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्याम् मयि यमेन दत्तान्त्रित एन मायुनगीन्द्र एणम् रथमु अध्यतिष्ठत गन्धर्वो अस्य रश राम द्रवणाक्षूरादश्वं वसवो निरतिष्ट असि यमो अस्यादित्यो अर्वन्नसि त्रितो घुजेन व्रतेन हसि सोमेन समयविवृत्त आहुस्ते त्ीणि दिविबन्धनानि क्रीडित आहुति विबन्धनानि समुद्रे उते वमे वरुणश्चन्तृ्वत्रात आहुः परमञ्जनित्रम् हिमा ते वाजिन्नममार्जनानीमाशपानग् सनितुर्निधान अत्राते भद्रारशदा अपशमितस्य या अभिरक्षन्ति गोपाः आत्मानन्ते मनसा रादजानामवोदिमा पतयन्तम् शिरो अपश्यन् पथिभिः सुगेभिररेणुभृजेऽह मानं पतत्री अत्रा ते रूपमुत्तममपश्यञ्जिगी खमाणमिख आप देवोः च दाते मर्तोऽनुभो गमानोडाजिग्रसिष्ठ ओ ओ ओ ओ ओखधीरजीव अनुभ्राता सुस्तवख्यमीयुरनुदेवावमिर्जन्ते हिरण्यशृङ्गो <coughs> यो अस्य पादामनो ज अमर आसीत् देवा इदस्याविरुध्यमायन्यो अर्पन्तम् प्रथमो अध्यतिष्ठत हीर्मान्ता सहासिरिकमध्यमा सहासज्ञूरणासो दिव्यासो अत्या इव श्रेणिशो जतन्ते जोदाक्षि गुरुदिव्याः तव शरीरम् पतयुष्मर्वान् तव चित्तम् इव ध्वजीवन् तव शृङ्गाडविष्ठिता पुरुण्ये भुजर्भुराणाचरन्ति उपत्रागच्छसनं जर्वादेव ध्रीजामनसादि ध्यानः अजहा पुरो नीयते पश्चात्कोज उपरागात्सस्थम्वा अच्छा पितर मातरच अदिया देवातमो गम्या शेरा सुखे वर्जा सृद्धो अदमो दूरोणे देव देव्यजसी जातवेद आ च वाहमिद्रमाश्चिकित्वान् त्वान् धूता कविरसि प्रचेताः तनूनपाक्पथरितस्य जानान्मद्वासमञ्जन्सुदया सुयुः मन्मानिधिभिरुतजज्ञृन्दन् देवत्राच्यृणुविषद्भरन्नः दुराशकुन्दस्य महिमानमेकामुपस्तोकामज तस्य यज्ञैः जे सुक्रतमहाशुचयोधि यन्दाः स्वदन्ति देवा उभयानि हव्या आजुवान ईजौवन्यश्चाय जग्नि वसुभिः सजोघाः त्वम् देवानामसिजम होतास एनान्यक्षीकितो जीयन् प्राचीनम् वरिः प्रदिशा पृथिव्याभस्तोरस्या वृजते अग्रे अह्नम् व्यप्रतय वितरम् वनीयो देवेभ्यो अदितये स्यूनम् व्यचस्वतीर्विया विश्रयन्ताम् परिभ्यो न जनयः शुम्भमानाः देवीयद्वारो गृहति विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः हास्कुवयन्ती जयते उपाके उकासा नक्तासदतान्योनौ दिव्य जो खणे बृहती सुश्रिय शुक्रभिषन्दे दिव्या शुक्र होता सुचाज मनुघोज ये प्रचोदयता विदे खुकारु प्राचीन ज्योति प्रतिषा दीशंता हानो यारतीय मे पीड़ा मनुखुव दीह चेत तिसरो देवीर्बरे हिरेदगुस्यो न सरस्वती स्वपसा सदन्तु इमे द्यावापृथिवी जन्त्रीरूपैरपि द्विषद्भुवनानि विश्वा तमद्यहोतरिखितो जीयन् देवन् द्रष्टारमि यजक्षि विद्वान् कुपावसृजत् मन्यासमञ्जन् देवानाम् पाथ ऋतुथाहवि वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् अधुना भृतेन सद्यो जातोऽव्यमिमीत मी जज्ञामगनिर्देवानामभवत्पुरोगाः अस्य होतुः प्रदिश्रितस्य वाचि स्वाहा कृतज्ञरदन्तु देवाः केतुम् कृण्वन् न केतवेपेशो मर्जा अपेषसे समुखर्भिरजा युथाः जीवो तस्यैव भवति प्रतीकञ्जद्वर्मी जाति समदामुपस्थे अना विद्वया तन्वाजयत्वं सत्त्वब्रह्मणो महिमापि भर्तु धन्वनादाधन्वना जिञ्जयेम धन्वना तीव्राः समधो जयेम धनुः शत्रोरपकामम् कृणोति धन्वना सर्वाः प्रदिशो भक्षन्ति वेदाघनीवन्ति कर्णम् सकायं परिकस्वजाना जोघेव शिन्ते वितताभिधन्वञ्जा यज्ञं समने पारयन्ति ते आचरन्ति समने वोगा मातेव पुत्रम् विभृतामुपस्थे अपशत्रूवन् विध्वतासंविधाने आत्मी इमे विस्फुरन्ति अमित्रान् भवीनाम् विता बहुलस्य पुत्रश्चिश्चा कृणोति समदावगत्य इखुधिः शङ्काः वृतनाश्च सर्वाः अपृष्ठे नि नदो जयति प्रसूता रथे तिष्ठन् नयति वाजिनः पुरोजत्र कामयते सुखा रथिः अभीषूनाम् महिमानम् वनायतमनः पश्चादनु यच्छन्ति तीव्राङ्गोखाङ्गृण् वृक्षपाणयो रथे निवाजयन्त अवक्रामन्तः प्रपदैरमित्रान् क्षीणन्ति शत्रुवौरनपजयन्तः रथवाणवीरस्य नाम यत्रायुधन् नितमस्य वर्म तत्र रथमुपशमग् सदेव विश्वाजग् सुमनस्य मानाः स्वादु सदः पितरो वयोधाः कृच्छितः शक्तिबन्तो गभीराः चित्रसेदा इकुबला अमृध्राः सतो वीरा उरवो व्रातसाः ब्राह्मणा सहा पितरः सोम्या सहाशिवेनोद्यावा पृथिवी अनेहसा पूकानः पातुरिता धृतावृदो रक्षा माकेन्दो अगश सुपर्णं वस्ते मृगो अस्यादन्तो गोभिः सन्नद्धा पतति प्रसूता यत्र नरः सञ्च विच द्रवन्ति तत्रास्मद्रमिकः सन्न व्यजिते परिवृङ्खिनोष्मा भवतु न स्थनूः सोमो अधिब्रवीतुरो दितिः शर्म अश्वाजन् प्रचेतसोऽश्वान् स मत्सुचोदय अहीवभोगैः प्रचेति बाहुञ्जाया हेतिम् परिबाधमानः हस्तगुण विश्वायुनान् विद्वान् पुन् पुमाग्नसम् परिपातु विश्वतः वनस्पते वीडवंगो हि भूया अस्मत्सता प्रतरणः सुवीरः गोभिः सन्नद्धो अस्वस्था ते दिवाः पृथिव्याः प्रजो उद्भृतां वनस्पतिभ्यः प्रजापृतग् सहामोज्मानं परिगोभिरावृतमिन्द्रस्य वज्र्यविकारज इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः सेमान्नो हव्यदातिञ्जुखाणो देवरथ प्रतिहव्याग्रिभाय उपश्वासय पृथिवीमुतद्यां बुधा ते मनुतं विष्ठितं जगत् सदुन्दुवेदजोरिन्द्रेण देवैर्दूराधमीयो अपसेदशत्रुवन् आक्रन्दय बलमोजो न आदानिष्टमी दुरिता बाधमानः अपप्रोदुन्दुवेदक्षुणा इत इन्द्रस्य वीडयस्व प्रत्यावर्तये माहाकेतुमद्वन्द्वभिर्वावदीति समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु आग्नेयः कृष्णग्रीवः सारस्वतीमेकी बभ्रूः सोम्यः पूष्णः श्यामः श्रीकृष्णो बालयस्पत्याः शिल्पो वैश्वदेव कल्मास इन्द्राग्नः स गृहीतो धो रामः सावित्रौ वारुणः कृष्ण एकशितिपात्रे त्वाः अग्नयेनीकपते रोहिताञ्जिलनिर्वाणधो रामौ सावित्रौ पौष्णौ रजतनाभिवैश्वदेवौ फिशङ्गौ तु परौ मारुतः कल्मास आग्नेयः कृष्णोजः सारस्वतीमेके वारुणः पेत्वा अग्नयेगायत्राय त्रिवृते राथन्तराय अष्टाकपाल इन्द्राय त्र यष्टुभाय पञ्चदशाय वार्यतायै खादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वै रूपेभ्यो द्वादश कपालो मित्रावरुणाभ्या मानुष्ठुभाभ्याम् मे कविद्वाभ्यां वै राजाभ्यां वयस्या वयस्पतये प्राङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्र औवस्नीयाय त्रय त्रिगिंसाय रैव यद्वादशकपालः प्राजापत्यश्चरूरादित्यै विष्णुपत्न्यै चरुरगुणाय व्येश्वानरा यद्वादश कपालो नुमत्या अष्टाकपाला एकोनत्रिंशा